उपतिरेण्डावद् दशकम् मत्स्यावतारम् पुराहयग्रीव महासुरेण षष्टान्दरान्दोद्यतकाण्ठकल्पे नेत्रोन्मुख ब्रह्म मुगादृतेषो वेतेष्वतिसखिल मत्स्यरूपम् सत्यव्रदस्य त्रमिलादिवर्धोर्नती जले तर्पयतस्तदानीम् कारम् जलौ सद्वलिता कृदस्तिस्त्व अदृश्यता कश्चन बालनीह क्षिप्तम् जले त्वाम् चकितम् विलोक्ये निन्येम् बुभात्रेण मुनिस्वगेहम् स्वल्भैरहो विकलचीम् च कूभम् वापीम् सरश्चानसिषे पृष्ठे मुना कल्पदिधृसुक्षुमेनम् सप्ताहमास्वेति वदन्नयासे प्राप्ते त्वदुग्दे हनिवारिधार परिलुप्ते भूमितले मुनीन्द्र सब्दर्शिभिः सार्तमपारवारिणि उद्गूर्णमाणचरणम् ययौ त्वाम् पराम् द्वतादेशकरीमवाप्ताम् नौरूपिणीमारुरुहुस्तधा ते तत्कम्पकम्प्रेषु त्वमम् बुधेराविरबोर्महीया जाशाकृतिम् योजनलक्ष्यदीर्घाम् तधानमुच्चैस्तर तेजसन् त्वाम् निरीक्षतुष्टामुनयस्त्वदुक्त्या त्वत्तुङ्गशृङ्गे धरणीम् बभन्तु आकृष्टनौको संस्तूयमानोऽनृवरेण देन ज्ञानम् परम् शोभदिशन्न शारे कल्पावधौ सप्त मुनिन् पुरोवत् प्रस्ताप्य सत्यव्रत भूमिपन्तम् वैवस्वताख्यम् मनुमादधान क्रोधाद्ययग्रीवमपि पृतोपोम् स्वदुङ्गशृङ्गशतरक्षसन्तम् निपात्य दैत्यम् गृहीत्वा विरीच प्रीतहृदे तधान प्रपंचनागारपते प्रया गोपिका जीवन स्मरण गोविंद गोविंद